गर्गसंहितखण्डं सेवेन् विश्वजित् खण्डम् अध्यायम् ट्वेन्टि वन् श्रीनारद उवाजा दुर्योधने गदे तत्र हाहाकारो महानभूद अभूद तदा देवव्रतो भीष्मो गाङ्गे यप्रय यौ त्वरं यदूनां पश्यतां तेषां धनिष्टङ्कारयन् मुहुः स्मीकर्तुं यदुबलं वनं वह्निरिवज्वलन् सर्वधर्मभृतां श्रेष्ठो महाभागवतकविः वीरयूधाग्रणीर्येण रामोऽपि युधितोषितः शिरस्त्रीमुपुडी गौरसिधश्मश्रुः पितामहः यदा षोडशवर्षीयो युद्धान्तं विचरन् बलाद बाणैर्निपादयामा सा निरुद्धस्य बलम् महद करिणश्चिन्नशिरसो हयास्ते भिन्नकन्धराः खड्गस्ता भिन्नबाणैः पतयो विद्विधा भवन् कृदायेन येन हद सूताश्वनायकाः अधोमुखा ऊर्ध्वमुखाश्चिन्नपादा नृपात्मजाः खड्गहस्त धनुर्हस्ता पदिताश्चिन्नबाहवः के युद्वै चिन्नकभजा निपेदुर्भूमिमण्डले अश्वैर्वीरैरधैर्नागैर्पदियिस्वर्णभूषितैः युद्धमण्डलमारोजे वनं वृक्षैर्हृदैर्यधा शत्रदन्ता बाणकेशा ध्वजवस्त्रा करिस्तना रथाङ्गकुशल राजन्महामारीवभूर्बभौ क्षतजस्रावसम्भुधारथाश्वनरवाहिनी आपका भून्महादुर्ग नरै वैधरणी यथा दा कूष्माण्डोन्मादवेदाला न दन्दो भैरवम् स्वनम् हरमालार्धमागत्य जगृहुर्नृशिरांसिज रथेनाधिपदा केनानिरुद्धो धन्वीनाम् वरः स्वबलम् पतितम् दृष्ट्वा <laughs> प्रागाद्भीष्मम् मृधे महान् प्रलयाब्धिमहावर्तभिमसङ्कर्षणादीनीम् धनुर्जं तस्य चिचेद बाणेनैकेनकाष्णिजः तुण्डया तीक्ष्णया राजन् गरुडसर्पिणीम् यथा भीष्मोन्य धनुरादाय सज्जम् कृत्वा तदात्मवान् सर्वेषां पश्यताम् तत्र ब्रह्मास्त्रम् सम् दधे मृदे तदप्रा दुष्कृतम् त्यज प्रचण्डम् वीक्ष्य माधवः स्वबलस्यापि रक्षार्थम् ब्रह्मास्त्रम् सम् दधे स्वयम् द्वादशादित्य सङ्काशे युयुधादे परस्परम् प्रिलोकाण्डदि द्वीपे निरुद्धस्थम् जहारः काङ्गे यस्यापि कोदण्डम् तडिद्वर्णं यदुत्तमः चिच्छेदसाय कैसूर्यो नीहरमिव रश्मिभिः भी भी भीष्मो गृहीत्वा दगदां लक्षभारमयीं दृढां प्राहीनोदनिरुद्धाय सिंहनादं तदा करोद गृहीत्वा वामहस्तेन गरुत्मानिव पन्नीं प्रद्युम्नो भगवान् साक्षात् प्राहीनात् स्वगदां हृदि गदा प्रकारव्यधीदो मूर्च्छितपदिदोरथाद बभौ सूर्यो यथा काशात् गङ्गेयो मृधमण्डले कृपाचार्योऽपि निरुद्धाय महात्मने शक्तिं शिक्षेप सकसारुषा प्रस्फुरिताधरः दीप्तिमान् खड्गेन शितधारेण कुवाक्येनेव मित्रताम् द्रोणाचार्य महाबाहुर्भानुपरिरुषान्विधः शिक्षेपर्वतम् चास्त्रम् धनुष्ठङ्गारयन्मुहुः पतन्तपर्वदाव्योम्नश्चूर्णयन्तो द्विषद्बलं तेषां पादेन राजेन्द्रः आहाकारो महान् भूत तदाहरे सुदोभानुर्वाहव्यास्त्रं समादधे तद्वाते नाद्रय सर्वे उड्डीदाह्य भवन्रनाद बाक्लीकस्तु तदा क्रुद्धौ वाक्म्यास्त्रं सम्दधे तदः भस्मीभूतं बलं जातं पार्जन्यमाददे तत्र साम्बो जाम्बवदीसुधः तेन शान्तिं गतो वन्यज्ञानेनेव त्वहङ्कृतिः कर्णस्ततो मधुं हित्वा साम्बो बरि रुषान्वितः जघानबाणविंशत्या जगर्जघनवद्बरि तद्बाणै किञ्चित् व्याकुलमानसः पुनर्गताम् समादाय रथं त्यक्त्वा समेत्य सः तथाडकतया कर्णम् साम्बो जाम्बवी गदाप्रहारव्यधिपरिदोधरणीतले मूर्छाम् प्रापरणे राजम् कर्णो वीरो महाबलः साम्भो विश्वधनुर्नित्वा रथमारुह्य वेगदः शलम् च पानविंशत्या सोमदत्तम् च पञ्चभिः द्रौणीम् च दशभिर्बाणाैर्धौम्यम् षोडशभिस्तद्धा लक्ष्मणम् दशभिस्तत्र शकुनिम् च विंशत्या विंशत्या सञ्झयम् भूरिं बाणशधैराजन्यज्ञ हे दुंशधैषिधैः बाणैर्जखानसमरे जगर्जखनवद्बली दशभिर्दशभिर्ने धृणे कैकेन गजान् हयान् पञ्चभिः पञ्चभिर्वीरान् बाणैः साम्बस्तताढः वीक्ष्य जाम्बवदी सूनोत् साम्बस्य करलाघवम् स्वेपरे सैनिकः सर्वे विस्मयं परमं गताः तदा भीष्मसमुद्धाय गृहीत्वा धनुरुत्तमं चिच्छेदशभिर्बाणैः साम्बकोदण्डमुत्तमम् भीष्ममहाबलो वीरो द्रोणाचार्यश्च सायकैः कर्मसद्यो यदुबलं जग्नुज्ञानं यथा गुणाः दुर्योधनपुनर्योद्धुं रथमारुह्यमानदः अक्षौहिणीभिर्दशभिर्न दयन्न दय्यौ मृधे देवौ पुराणौ पुरुषौ तदा विर्बभू वधुर्मैथिलरामकृष्णौ सुपर्णकालध्वजशालियानौ प्रद्योदयन्तौ परितौ हिशस्तौ तदा जयारव समाकुला सुरा गन्धर्वमुख्याश्च जगुर्मनोहरं सुरनखा दुन्दुभयो विने दुःश्रीराजपुष्पैर्ववृषु सुरस्त्रियः तदैव ने मुर्यधव परेश्वरौ दुर्योधनाभ्या पुरवस्तु सर्वतः निपायशस्त्राणि ददुर्बलिं परं सर्वे प्रसन्नाकृतहस्तसम्पुडाः प्रद्युम्न मुख्यान् स्वसुदान मदोद्धान् निर्भास्य वाग्भिपरमेश्वरो हरिः प्रणम्य देवव्रतमुख्य समेत्य दुर्योधनमो परौ श्री कामकृष्णावोचदुः राजन्य किल बालबुद्धिभिस्तत्क्षम्यतां मा भवदुर्मनास्वदः यदा तु किञ्चित् परुषं यथा तु किञ्चित् परुषं प्रकीर्तितं प्रकीर्तदां नौ भवदां नृपेश्वर मा भूत् भुवि यादवानां कदापि किञ्चित् सम्बन्धिनो ज्ञादय एव सर्वे निचौलवस्त्रान्तरवत्प्रियार्थाः श्रीनारद उवाज पूजितौ कुरुभिः शश्वद्रामकृष्णौ सुरेश्वरौ प्रद्युम्नाद्यै सयदुभि रे च दुर्मैथिलेश्वर इति श्रीगर्गसंहितायाम् श्रीविश्वजित्तण्डे श्री नारद श्रीनारदबहुलाश्वसंवादे श्रीरामकृष्णागमनम् नामयि गिंशोऽध्यायः ओ गर्गसंहिता खण्डम् सेवन् विश्वजित् खण्डम् अध्यायम् ट्वेण्टि टु श्रीनारद उवाच दुर्योधनम् शान्तयित्वा सानुजै कुरुभिः सह जग्मधु पाण्डवान् द्रष्टुमिन्द्रप्रस्थम् यदूतमौ इन्द्रप्रस्ताततो राजा जाद जादसत्र युधिष्ठिरः भ्रातृभिस्वजनैः सार्धम् नेतुम् कृष्णम् समायय्यौ शङ्क दुम् दुभिनादेन ब्रह्मघोषेण वेणुभिः पुष्पवर्षम् प्रकुर्वद्भिरिन्द्रप्रस्थनिवासिभिः रामकृष्णौ परिष्वज्य दोर्भ्याम् राजा युधिष्ठिरः परमाम् निर्वृदिं लेभे योगीवानन्दसम्मृदः प्रद्युम्नाद्या हरिसुधा प्रणेमुश्रीयुधिष्ठिरम् युधिष्ठिरोऽनुजग्राहकराभ्याम् तान् कृताशिषः अर्जुनम् भीमसेनं च परिरभ्य हरिस्वयम् पप्रचकुशलं तेषां यमाभ्याम् चाभिवन्दितः परिपूर्णतमौ साक्षात् श्रीकृष्णौ च स्वयं हरिः असङ्ख्यब्रह्माण्डपदि हरिदासेन पूजितौ प्रस्ताप्य यदु मुख्याश्च प्रद्युम्नादीन् ससैनिकान् समग्रां जगदीं जेतुं चाज्ञाम् दत्वा वितानदः मिलित्वा सा निजम् धर्मम् भक्तवत्सलौ द्वारकाम् जग्मधु गौर्य गौरश्यामौ मनोहरौ युद्धम् श्रीकृष्णचरितम् मया दे कथितम् नृप चतुष्पदार्थतम् नृणाम् किम् भूय श्रोतुमिच्छसि बहुला श्व उवाच कुशस्थलीम् कृष्णे सबले पुरुषोत्तमे ततश्चकारकम् साक्षात् प्रद्यम्नो भगवान् हरिः अद्भुतम् तस्य चरितम् श्रवणीयम् मनोहरम् मुक्तानामभिभक्तानाम् जिज्ञासूनाम् पुनः अर्थार्थनि मर्धदं मर्धदम् सदार्थानामर्तिनाशनम् सदुविधानाम् जीवानाम् सर्वेषाम् पापनाशनं कदम दिग्विजयम् कृत्वा दिग्जया धीहरे सुधः आजगाम पुनः सैन्य रेदन्मे वद तद्वदः वर्षे त्वम् ब्रह्म भगवान् सर्वदर्शनः श्रीकृष्णस्य मनपूर्वम् तस्मै हे हरये नमः श्रीनारद उवाजा साधुपृष्टम् त्वया राजन् धन्यत्वम् तत्प्रभावविद श्रीकृष्णचरितं श्रोतुम् पात्रं तोमसि भूतरे कृष्णे यादे जातशत्रुरक्षार्थं स्नेहदो नृप शत्रुभ्यशङ्कितकार्ष्णीं प्रायुङ्काशु किरीडिनम् अधकार्ष्णिर्यदुश्रेष्ठफाल्गुनेन समं नृप विकर्षन्महतिं सेनां त्रिगर्तान् प्रययौ त्वरं त्रिगर्ताधीश्वरो धन्वी सुशर्मा तेन शङ्गितः उपायनं ददौ तस्मै प्रद्युम्नाय महात्मने विराटेन तथा रत्नपूजितो यादवेश्वरः सरस्वतीं नदीं स्नात्वा कुरुक्षेत्रं ददर्शः प्रदुदकं बिन्दुसरस्त्रिदं कूपं सुदर्शनं स्नात्वा सरस्वतीं प्रागाद्दत्त्वा दान्यनेकशः सारस्वताधिपो राजाकुशाम्बो न ददौ बलिं कौशाम्बीं दुर्योधन दुर्योधनवशानुगः चारुद्याक्ष्णसुधैक्ष्णश्च चारुदेहश्च वीर्यवान् सुश्चारुश्चारुगुप्तश्च भद्रचारुस्तथा वरः चारुचन्द्रो विचारुश्च चारुश्च दशमस्तथा रुक्मिणी नन्दना ह्यते प्रद्युम्नेन प्रणोदिताः सिन्धुदेशहयारूढ सर्वेषां पश्यतां गताः कौशाम्बीं नगरी मे तिरुरुदु सर्वतस्तदा बाणै प्रासादशिखरा ध्वज कुम्भादितो लिकाः चूर्णीभूतानि भे तदो सन् कुशाम्भो निर्गतपुरादकृताञ्जलिष्याम् कृताञ्जलिशम्बरारिम् दत्वा दत्वानत्वा बलिम् बहु जुगोपनगरीं राजा भयार्तो भयविह्वलः तदैव सौवीरपदि सुदेव आभिरनाथोऽपि विचित्र नाम चित्राङ्गदसिन्धुपदिर्मखौजाः काश्मीरवो जाङ्गलपस्सुमेरुः लाक्षेश्वरो धर्मपदिर्बिडौ ज गन्धार मुख्यो सुयोधनस्य वशे स्थितास्ते विभयात् किलैदे दत्वा बलिम् नेमुरदीव ययौ कार्ष्णि निर्मः बाहु स्वसैन्यपरिवारिदः अर्बुधान् म्लेच्छ देशांश्च जेतुम् कल्किरिवोद्धडः कालस्याभि सुतश्चण्डो यवनेद्रो महाबलः कार्ष्णीम् समागतम् श्रुत्वा सम्मुखात् कोपपूरितः पितृकन्धुम् सुदम् हत्वा यास्याम्यपचितिम् पिदुः इदम् विचार्य मनसा म्लेच्छानाम् दशकोटिभिः मदच्युतं प्रोन्नदन्तम् कदमारुह्य रक्तदृग निर्ययौ यो सम्मुखे योद्धुम् प्रद्युम्नस्य महात्मनः आगतम् सेनां सिदबाणप्रवर्षिणै चण्डप्रणोदिदम् दृष्ट्वा प्रद्युम्नौ वाक्यमब्रवीद प्रद्युम्न उवाज सेनां कृत्वाभियच्छाण्डं शिरस्त्र सखितं शिरः आनेष्यदेतं स्वबली करिष्यामि ध्वजापदिम् श्रीनारद उवाज एवं कार्ष्णौ वदत्या फाल्गुनो वानरध्वजः यगोविवेश गाण्डीवि धनुष्टङ्गारयन् महुः वीरान् रथान् गजानश्वान् सम्मुखस्तान् द्विधाकरोद गाण्डीवमुक्तैर्विशिखैर्गाण्डीवीरणदुर्मदः केचिन्नभुजाप्ये दुःशक्ति खड्गी शक्तिघर् घट्घाष्टिप्राणयः केजि छिन्नभुजा पे दुः शक्ति खड्गाष्टिपाणयः भिन्नपादा भिन्ननखा केजिद्वीरा स कञ्चुकाः दुद्रुवकरिणो युद्धे भिन्न कक्षाश्च सक्षदाः कदकण्टाश्लधन्नीढा पादयन्धकरैर्गजान् जिष्णुभाणायर्द्विधा भुदैर्गजैरश्वणाङ्गणम् बभौ क्षेत्रम् शङ्कुलया कूष्माण्डशकलैरिव तथैव दुद्रुगुर्मैर्चा त्यक्त्वा स्वं स्वं रश्मिसम्भिन्ना निपटला इव गजारूढोम्लश्च पतिशक्तिं शिक्षेपजिष्णवे भ्रामयित्वा मैथिलेन्द्रसिंहनाथ मधा करोद दा। विद्युल्लतामि वा यान्दीम्बाणे कृष्णसखोबलिकाण्डीवमुक्तै चण्डो महाम्लेच्छो धनुर्जर्ग्राहरोषधः तावचिच्छ्यद गाण्डीवी बाणेनैकेन ना लीलया द्वितीयं धनुराधाय स चण्डश्चण्डविक्रमः प्रलयाब्दिमहावर्तभीमसङ्घर्षणादिनीं चिच्छेद सिंजनीं जिष्णो गरुत्मानिव पन्नगीम् बीभत्सु स्वमसिं नीत्वा स्फुरन्तं चर्मणा सह जखान तद्गजम् कुम्भे शैलमिन्द्रो यथा भविः अग्निदत्तेन खड्गन भिन्नकुम्भो गजो परमं यौ चण्ढक् प्रापत्य पाण्डुनन्दनं तद् खड्गं चर्मणो नीय स शिरस्त्रं शिरस्तस्य देहाद्भिन्नं बभूवः सज्जमृत्व धनुर्जिष्णुर्निधाय विशिके च तद् आकृष्य पादयामास प्रद्युम्नस्य बले महद तदा दुन्दुभिनादो भुजया अर्जुनस्योपरि सुरा पुष्पवर्षं प्रचक्रीरे तदैव सबलस्य जिष्णुम् चकारनाथम् विजयध्वजस्य संविद्यमानम् सितचामराध्यै कपिध्वजम् यादव बृन्दमुख्यैः वेगवानर्बुदाधीशप्रद्युम्नम् शरणम् गदक उपायनम् ददौ भीरुर्नमस्कृत्य कृताञ्जलिः मौ रङ्गेशो मन्दः सोहयानां दशलक्षकं तत्त्वा भीरुर्नमश्चक्रे प्रद्युम्नाय महात्मने युद्धं कण्डं भारदाख्यं जित्वा कार्षिं यदूतमः इमाद्र्यं दक्षिणीकृत्य प्रागुदीचीं दिशं ययौ युद्धि श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलशसंवादे बहुदिग्विजयो नाम द्वाविंशोऽध्यायः ओम् गर्गसंहित खण्डम् सेवन् विश्वजित्खण्डम् अध्यायम् 23 त्रि श्रीनारद उवाच नदानद्यसमुद्राश्च रथवीधीम् ददुनृप दर्शितास्तेजसा तस्मै न्याय महात्मने। कैलासगिरिपार्श्वे च वरवीरश्च मानुषः बाणस्य शोमितपुरं प्रयय्यौ यादवेश्वरः बाणा सुरोदिसंक्रुद्धो यदुन्वीक्ष्या गदान् पुनः अक्षौहिणीभिर्द्वादशभिर्युद्धं कर्तुं मनोदते तदेव साक्षात् पुराणो महेश्वरो नन्दिवृषस्थितोऽसौ हिमाद्रिपुत्री सहितस्त्रिशूली समेत्य बाणम् नृपमासदेवः शिव उवाच परिपूर्णतमसाक्षात् श्रीकृष्णो भगवान् स्वयम् असङ्ख्यब्रह्माण्डपदेर्गोलोकेशपरात्परः त्रयो वयं तत्कला हि ब्रह्म विष्णुशिवादयः मूर्ध्न्याज्ञां यस्य बिभ्रदित्वा दृशानां च का तस्य पौत्रत्वया बद्धो निरुद्धो येन तेजसा चिन्नाम्भुजान जानासि सङ्ग्रामे तं हरिं स्व हरिस्वयम् तस्मात् तेषां दानवानां पूजनीया सुधाः अनिरुद्धपूजनीयो जामादाते न संशयः न ददामि त्वनुज्ञान्ते युद्धा या सुरभुङ्गव ने चेद्युद्धं कुरु बलात् वृथा दृष्टम् मनस्तव श्रीनारद उवाच शिवप्रबोधितो बाणो निरुद्धं धन्वीनां वरम् समाहूय च सम्भूज्य पारिबरुकं ददौ पुनः ससैन्यं सादरेणापि प्रद्युम्नं पूज्य बन्धुवद गजायुधं चाश्वकोटिं प्रधानां पञ्चलक्षकं ददौ बाणो महाबाहु प्रद्युम्नाय महात्मने अध कार्ष्णिर्महाराजस्वसैन्याये यदुभिस्सह अलकां प्रययौ धन्वीपुरीं गुह्यक मण्डिताम् श्रीनन्दालकनन्दाभ्यां गङ्गाभ्यां परिखीकृता रत्नसोपानयुक्ताभ्यां यज्ञभिपरिशोभितां विद्याधरीभिपरिदकिन्नरीभिर्मनोहरं दिव्याभिर्नागकन्याभि पुरीं भोगवतीमिव धनदो न ददौ तस्मै प्रद्युम्नाय बलिं नृपः हरे प्रभाव विष्णोर्मायाबलम् त्वो हो लोकपालोऽस्म्यकम् नित्यमित्यज्ञानविमोहिदः नोदितो बलिभिर्यक्षैर्युद्धम् कर्तुम् मनोदधे निर्धनो हि धनम् प्राप्य तृणवन्मन्यधे जगद नवानाम् दुनिधीनाम् कौपदीनाम् किमु वर्णनम् तदैव हेममुकुडो दूदो धन पार्ष्णिमेत्य समा मध्ये न त्वेदम् प्राहमानदः हे ममुकुड उवाच धनेश्वरो राजराजो लोकपालो लकेश्वरः तेन यत्कथितम् राजन् शृणुत्वम् तद्यदूतम देवराजो यथा शक्रस्मृतो दिवि यथा प्रभुः तथैको राजराजोऽहं कथितो भूदले महान् मनुष्यधर्मराजेन्द्रै पूजितोऽहं सदा भुवि उग्रसनेन दातव्यं मह्यं सोपायनम् परम् परा तस्मै यदुराजाय भूभृदे न चे संग्रामं चेत् सङ्ग्रामं करिष्यामि न संशयः उवाच एवं दूतवज श्रुत्वा प्रद्युम्नो भगवान् हरिः चकारकोपम् राक्षो रुषा प्रस्फुरिदाधरः प्रद्युम् न उवाच कृष्णीन्द्र राजराजेन्द्रम् राजराजो न वेतिदम् शक्रादीनाम् तु यः साक्षान् मुकुडैर्कृष्टपादुकः सुधर्माम् पारिजातम् च तस्मा इन्द्रो ददौ भयाद श्यामवर्णान् हयान् पाशे तस्मै दत्वा नामः अनेन राजराजेन भीरुणानि धयो नव प्राप्तास्तम् कि राजराजो महाबलम् वर्तते तत्सभा मध्ये परिपूर्णतमोहरिः असङ्ग्यब्रह्माण्डपदि श्रीकृष्णो भगवान् यस्यैकमूर्ध्निलकम् दृश्यते मण्डलम् भुवः उग्रसेन सभा मध्ये सोऽभिनित्यम् विराजते उग्रसेन प्रेषितोऽहम् कुबेराय महात्मने नाराचानां बलिम् दातुम् तत् करिष्यामि साम्प्रदम् श्रीनारद उवाच एवमुक्त्वा गृहीत्वा स्वम् कोदण्डम् चण्डविक्रमः चकारभुजदण्डाभ्याम् टङ्कारम् वादयन् गुणम् प्रत्यम् चास्फोटनेनैव मण्डितो भूतडित्स्वनः ननादतेन ब्रह्माण्डं सप्तलोकैर्बिलै सः विचेलुर्दिग्गजास्तार राजन्भू खण्डमण्डलम् निशङ्काक्षरमाकृष्य प्रद्युम्नो धन्विनाम्बरः प्रदिशार्ङ्गे स्वधनुषी बाणमेकं समादधे द्वादशादित्यसङ्कर्ष्यम् द्वेद द्वेदयन्मण्डलम् दिशाम् चिच्चेद गुह्यकेशस्य बाणं छत्रं चचामरे तदा कृतो राजराजो दृष्ट्वा चित्रमिदम् अहद आलुह्य पुष्पकं सैन्याैर्युद्धकामो विनिर्य खण्डनाध्ययनयक्षेण मन्त्रिणा पार्श्वमौलिना नलकूबरमणिग्रीव शिशुभाधे ध्वजाग्रदः तुरङ्गवधना के जिन्मृगेन्द्रवधना परे शिशुमारमुख केचित् के वक्रदन्दा ललजिह्वा बृहपद्दंष्ट्रामः बलाः करालास्या सक वसात् खड्गचर्मधरा पराः शक्तिहस्ता वृष्टिहस्ता दुश्युण्डि परिकायुधाः धनुर्माणधरा यक्ष केचित् परशुबाणयः यक्षाणाम् हस्तिवाहानाम् रथिनामश्विनाम् तथा विदेजर्गतानाम् च मण्डलानि सहस्रशः शङ्खदुन्दुभिनादैश्च सुदमागतवन्दिभिः रजिरे श्रीधवीढा कौमेघा इव तडिस्वनैः एवं यक्षेषु मतेषु कोडिशो निर्गतेषु च दिव्यन्महायोग मया सिद्धक्षेत्राद्विदेहराड आययौ तत्सहायार्थम् प्रमधानां बलं महदा भूदासप्रमदा केजित्करा लास्या मदोत्कराः नागिन्योया दुधानाश्च वेदालसंविनायकाः कूष्माण्डोन्मादसंयुक्कुदा प्रेदा मातृगणाः परे निशाचरपिशाचाश्च ब्रह्मरक्षभैरवाः नदम् दो भैरवम् नादं चिन्दिभिन्दीदिवादिनः इद्धम् दो भूदा वलयकोडिशश्चाययुस्तदा रोदस्याचादिदो भूता मेघैः साम्वर्तकैरिव मयूरस्थप्रातिकेयो मूषकस्थो गणेश्वरः प्रमध गीयमानौ तौ डक्का वादित्रनिस्वनैः सर्वेषामग्रतप्राप्तौ वीरभद्रण संयुधौ युद्धम् पुण्यजनानाम् दुगुणानाम् यदुभिः सह बभूवतु मूलम् युद्धमद्भुतम् रमहर्षणम् पत्तिभिः सह पत्तयः हयाः हयैरिभाश्चे युयुधुस्ते परस्परम् रथे भाष्यपदादीनां चरणाय रुद्धिदम्रजाः चादयामास राजेन्द्र ससूर्यं व्योममण्डलम् यदि श्रीगर्गसंहितायाम् श्री, श्री विश्वजित्खण्डे श्रीनारद बहुलाश्वसंवादे यक्षदेशप्रयाणम् नाम त्रयोविंशोऽध्यायः ओम् अध्यायं 24 श्रीनारद उवाच शस्त्रान्धकारे सञ्जाते मणिग्रीवो महाबलः बिभे दारिबलं बाणैः कुवाक्यैर्मित्रदामिव मणिग्रीवस्य बाणौखैर्गजाश्वरथपत्तयः निपे दुःसक्षता भूमवृक्षावादकदा इव चन्द्रभानुर्हरेः पुत्रो सत्यभामात्मजो बलि मणिग्रीवस्य कोदण्डम् पञ्चबाणैस्तदाचिनद दशभिस्तद्रथम् भित्त्वा जगर्जखनवद् बलि मणिग्रीवोऽपि जिक्षेप शक्तिम् स्वां चन्द्रभानुवे पासयन्ति दिश अग्रही चन्द्रभानुस्तां वामहस्तेन लीलया तया जखानसमरे मणिग्रीवं महाबलं पुनर्जगर्जसमरे चन्द्रभानुर्महाबलः तत्प्रहारेण पदिदे मणिग्रीवे प्रमूर्च्छिदे चन्द्रभानं बाणजालैर्मलकूपरनोदिताः चादयामासुरासुरा वर्षादित्यम् यधाम्बुधाः दीप्तिमान् कृष्णपुत्रस्तु खड्गमुद्यम्य वेगवान् विवेश यक्षसेन सुनिहारेषु यकारविः तस्य खड्गप्रहारेण केचिद्यक्षा द्विधा भवन् केचिद्वै चिन्न शिरः सचिन्न पादां स बाहवः खस्तास् भवेत् तेषां शिरोभिर्भिभत्सै स किरीडै सङ्कु सङ्कुण्डलैः सशिरस्त्रैः स्रवद्रदाय महामारीव भूर्बभौ शेषा विदुद्रुवुर्यक्षा सक्षदा भयविह्वलाः आहाकारस्तदा जातो यक्षसेना धनुष्ठङ्कारयन् प्रातो दंशितो न लकूबरः रजेनाधिपदाकेन माभैष्ठेत्यभयं ददौ पञ्चभिकृतवर्माणमर्जुनम् दशभिशरैः दीप्तिमन्तं च विंशत्या तदाडनलकूबरः कृदवर्ममहाबाहुर्जखाननलकूबरं पञ्चभिर्विशिखैराजन् आदयन् मण्डलं दिशाम् ते बाणा कवचम् भित्त्वा भित्वा धरातलम् विविशु पश्यताम् तेषाम् वल्मीके फणिनो यथा वीक्ष्य तद्बाणभिन्नाङ्गम् मूर्छितम् नलकूबरम् अपोवाकरणात्सुदोहे ममालिदिनामभाक खण्डानाथपार्श्वमौलिकुबेरस्य च मन्त्रिणौ जघ्नदौर्बाणपडलैर्यदूनामुद्भटं बलं स्वर्णपुङ्कैस्तीक्ष्णमुखैर्गृध्रपक्षैर्मनोजवैः द्वेदयद्भिर्दिशसर्वा मार्तण्डकिरणैव तदोऽर्जुनो महावीरप्रदि बाणान् समादधे बाणसङ्कर्षजा युधे विस्फुलिङ्गा सहस्रशः विरेजुर्नृपखद्योद चञ्चलाद चक्रवद सर्वं तद्बाणपटलम् क्षणमात्रेण चाचिनद गाण्डीवमुक्तविशिखैर्गाण्डीवीरणदुर्मधः योजनध्वजमात्रेण तद्रथो सध्वजो बलाद अर्जुनो बाणपटलैश्चकार शरपञ्जरे अदा विमा विधिज्ञात्वा वी सर्वे पुण्यजनास्त्वरम् दुद्रुवुस्वमृणम् त्यक्त्वा परं हासे दिवादिनः तदा तु भूदावलय कोडिशश्चाययोर्मृधे मृधे पक्षयन्त्यो नरानश्च वयन्त्यो रथान् नरे नरे पृथग्भूदा वन्दो दशभिर्दशा प्रमदा पादयामासु खड्वाङ्गेन जनान्मुहुः यादुधानाश्चर्वयन्दशिरांसि रणमण्डले वेतालाश्च कपालेन बिम्बदो रुधिरम्बहु विनायकाश्च नृत्यन्तप्रेदा गायन्त एव हि कूष्माण्डाश्च तथोन्मादशिरांसि जगृहुर्मृधे शिवस्य मुण्डमालार्धम् वीराणां स्वर्गगामिनां तथा मातृगणा ब्रह्मराक्षसा भैरवामृधे शिरांसि कन्दुपानीव क्षेपयन्दो मुहुर्मुहुः हर्सन्त प्रफसं तश्च साटः संसमाकुलाः पिशाचा विकलास्याश्च कुर्दन्तकेऽपि कुत्सितं पिशाच्यः क्षतजं तूष्णं पाययन्त्य शिष्युन्मृदे मारोदीरिति वादिन्योनेत्राण्यपि ददामवत् इद्धं गणबलम् दृष्ट्वा बलदेवानुजो बलि गतो गदम् समादाय जगर्जखनवद्बलि भृदा मौर्व्या गदय तद्बलम् महद प्रोधयामासहि गदो वज्रेणेन्द्रो यथा गिरीन् कूष्माण्डोन्मादवेदालापिशाचा ब्रह्मरक्षसाः निपेतुर्मूर्च्छिता भूमौ तद्गदा भिन्नमस्तकाः दागिनी भिन्नदन्ताश्च या दुधानांश्चिन्नमुखांशकारसमरे गदः गदया मर्जुता प्रेदा दुद्रुवुस्ते दिशोदश वाराहदं श्रया धग्नालये दैत्या यथा नृभ फलयि दे भूदगणे वीरभद्रसमागतः गतं तदाडगदया बलदेवानुजम्बलि गदोपरि गदां नीत्वा गद स्वां तयोर्युद्धमभूत्पूर्वं कदाभ्यां मैथिलेश्वर विस्फुलिङ्गान् क्षरं त्योद्वेगदे चूर्णि बभूवधुः मल्लयुद्धं तयोरासीन्नो दयन्तं परस्परं भुजैश्च जानुभिपादै पादयन्तो गिरीन् करवीरं समुत्पाद्य संगृहीत्वा तस्योपरि समाक्षिपद गृहीत्वा दगदम् वीरं वीरभद्रो बलाद्बली शिक्षेप चौजसा राजनाकाशे लक्षयो जनं गदोऽपि पतितो भूमौ किञ्चिद्व्याकुलमानसः गृहीत्वा वीरभद्राख्यं भ्रामयित्वा महाबलः वजसा प्राक्षिपचिक्रमाकाशे लक्षयो जनं वीरभद्रस्तु पतितकैलासशिखरोपरि गदाप्रकारव्यधितो मूर्छितो फिकाद्वयं कार्तिकेयस्तदा प्राप्तशक्तिमुद्यम्य वेगवान् अनिरुद्धाय साम्बाय शक्तिं चिक्षेप सत्वरम् अनिरुद्धरथं भित्वा साम्बं साम्बरथं पुनः गजान्रथान् च वीरलक्ष्यं मृदाङ्गणे न दन्ती स्फूर्जन्ति चपले वदिश्यो दशा विवेशभूमभूत्तरम् कुर्वती वसा तदा क्रुतो महाबाहु साम्बोजाम् भवति सुतः कृत्वा द शिञ्जिनीकोषम् निषङ्कात् बाणमाददे ये कोऽपि सद् बहिस्तून्ना दशरूपी बभूवः चापेशदम् कर्षणे च चा। सहस्रं रूपमादधे मोक्षणे लक्षरूपाणि कोटिरूपाणि कोटिषु अनेकरूपि शीकि विशिखशिखिनं शिखिवाहनम् वित्त्वाभिभेदवीराणां कोटिशकोटिशोरणे कार्तिकेये च भिन्नाङ्गे किञ्चिद्व्याकुलमानसे गणेश्वरस्तदा प्राप्तो मूषकस्थो गजाननः गोमूत्रपत्रमृगनाभिविचित्रकुम्भम् श्रीकुङ्कुमाकलिद सुन्दरवक्त्रतुण्डं सिन्दूरपुरित कपोलमनोहराभं कर्पूरधूलिधवलीकृतकर्णवर्णं व्यालोलकर्णकदमत्तमधुव्रदैस्तैः श्रीगण्डजादमधिरामदविह्वलङ्गै सङ्गीततालकुसुमाकरगीधरागैः संसेवितम् गणपतिम् कृत बालचन्द्रम् बालार्कवर्णममलाङ्गद हे महारघ्रैवेयमौलिकिरणै परिदस्पुरन्तम् आघुस्तमेकदशनम् गजभव्यमूर्तिम् पाशाङ्गुशाम्बुजकुडारचयम् दधानम् प्रांशुम् च दुर्भुजमदीव मृदे प्रवृत्तम् कांक्षित् च करेण हृदाङ्गुशेन सम्मर्धयन्द मुरुधारपरश्वधेन श्रीभार्गवेन्द्रमिव शस्त्रभृतः समस्तान् वीरे भवाजि रथशङ्खबलं निपात्य साम्बं प्रगृह्य सरसं प्रथनाक्षिपं तं संवीक्ष्य विस्मितमनसगणोधकार्ष्णिः पुत्रं सुबुद्धिमनिरुद्धमुवाच सम्यक् यदि श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे यक्षयुद्धवर्णनं नाम चतुर्विंशोऽध्यायः ओ अध्यायम् ट्वेण्टि फैव् पद्युम् न उवाच श्रीकृष्णस्य कलासाक्षाद् गणेशोऽयं महाबलः जेतुं न शक्यो दिविजय मनुष्यैस्तु उदो भुवि वर्तते नास्ति पराजयः श्रीकृष्णेन वरो दत्त पुरास्मै शङ्करालये यद्ययम् वर्तते चात्र तदा न वै श्रीकृष्णस्य वरोर्जितः तस्मात्त्वं चण्ड मार्जरो भूत्वा तम् युद्धदो बलाद विद्रावय महाबुद्धे फूत्कारैश्च दिश्यौ दश यावद्बलम् विजेष्यामि तावद द्विद्रावयत्वरम् श्रीनारद उवाच अधानिरुद्धो भगवां चण्डमार्जाररूपदृक् अलक्षितो गणेशेन न ज्ञादो भूत्कारमुत्कटम् कुर्वन् सम्भपादाकुसम्मुखे विदारयन्मुखम् राजम् सततं नखरैखरैः विशेषेण सखैवा दुर्दृष्ट्वा दुद्रावत्वरितं राजन् कम्पिदोरणमण्डलाद समन्वगच कुपिदो मार्जारस्थूलरूपदृग मूषकं स्वम भोवाह गणेशोऽभिमुहुर्मुहुः नाय्यौ स्वमरणं च गुश्चण्डमार्जारपीडितः सप्तद्वीपान् यत्र यत्र गतश्चा गोर्गणेशेन समन्विदक तत्र तत्र गजो राजन्मार्जारश्चण्ड विक्रमः एवम् समूषके यादे गणेशे विधिशोत्तरम् विस्मितेषु सपक्षेषु गणेषु प्रमथेषु य पुष्पकस्तकुबेरोसौ मायाम् चक्रेध गौह्यकीं गृहीत्वा स्वधनुर्दिव्यम् नमस्कृत्य महेश्वरम् स मन्त्रं कवचं धृत्वा बाणसङ्घम् समादधे तदैवच्छादिदम् व्योममेघैः संवर्तकैरिव तडित् स्वनैर्मह भीमैस्तमो भूस्तनयित् नुभिः भी बिन्दवो हस्ति सदृशा निभेदुसोपला मृधे धाराभिरधिकोराभिर्वभृषोर्वारिदास्ततः क्षणेन सिन्धवः सर्वे प्लावयन्दोधरादलम् पर्वतैर्जीवसहितैर्दृश्यन्तेरणमण्डले प्राकृतप्रलय मत्वा यादवा भयविह्वलाः त्यक्त्वा शस्त्राणि ते धोजुश्रीकृष्णेदि मुहुर्मुहुः ज्ञात्वा दां गौह्यतीं मायां प्रद्युम्नो भगवान् हरिः तत्त्वात्मिकाम् च स्वाम् विद्याम् सर्वमायोपमर्दिनीम् जत्वा कृत्वा कामबीजम् बाणमध्ये निधाय दद मुखे च प्रणवम् धृत्वा पुङ्गे श्रीबीजमेवज आकृष्य कर्णपर्यन्तम् कृष्णम् स्मृत्वा चतुर्भुजम् चिक्षेप विशिकम् चाबाद्धोर्दण्डाभ्याम् तडिस्वनाद कोदण्डमुक्तो विशिकोद्योद यन्मण्डलम् दिशाम् जखान गौह्यकीम् मायामन्धकारम् यकारविः भयभीतो राजराजो पुष्पकस्तोरणाङ्गणाद पलायमानो यक्षैश्चकम् बिद्ध स्व पुरीम् ययौ प्रद्यम् नस्योपरि सुरा पुष्पवर्षम् प्रचकृरे जख सूर्यादव सर्वे जयारावसमाकुलाः कदादि हर्षितो राजन् राजराजकृताञ्जलिः बलिं नियय शीघ्रम् प्रद्युम्नस्याभि सम्मुखे गजेन्द्राणाम् द्विलक्षम् च द्वि शुण्डादण्डशालिनाम् तद्भिश्चर्भेर्युक्तानामद्रेस्पर्धय दमदैः दशलक्षम् रथानाम् च मुक्ता तोरणशालिनाम् सदाश्वयोजितानाम् च राक्माणाम् सूर्यवर्चस्साम् दशार्बुदम् तदा राजन् हयानाम् चन्द्रवर्चसाम् शिबिकानाम् चतुर्लक्षम् माणिक्यैराग्रवर्चसाम् पञ्जरस्थायिनाम् राजन् चार्दूलानाम् द्विलक्षकम् चित्रकाणाम् मृगाणाम् च कवयानाम् तथैव च मृगया सारमेयानाम् कोटिकोटिर्विदेहराड सुकानाम् सारिकाणाम् च कलकण्ठप्रवादिनाम् हंसानां स्वर्णवर्णानामन्येषाम् चित्रपक्षीणाम् पञ्चरस्थायिनाम् रामल्लक्षम् लक्षम् नृतेश्वर विमानविष्णुदत्ताख्यमुक्ताम विलम्बितम् अष्टयोजनमुच्चाङ्गम् नवयोजन विस्मृतम् लक्षकुम्भध्वजोपेदम् निर्मितम् विश्वकर्मणाम् कामघम् स्वर्णशिखिरम् सहस्रादित्य सुप्रभम् सहस्रम् कुलवृक्षाणाम् कामधेन शतम् तथा चिन्तामणीनाम् च शतम् शतम् दिव्याश्मनाम् तथा यत् स्पर्शेनापि लोहस्तु हेमत्वम् यादिमैथिला चत्राणाम् चामराणाम् च हेमसिंहासनम् शतम् तदा कि दिव्यपद्मानाम् मालाम् किञ्जल्किनीम् पीयूषस्य शतं द्रोणं फलानि विविधानि जा कचिद्रत्नसुवर्णानाम् भूषणानाम् दुवाससाम् दिव्यानां कम्बलानां च कोडीश पात्रसञ्चयम् अमोघानां च शस्त्राणाम् कोडिसौवर्णशालिनाम् गजाैर्नरैर्भारवाहाय् प्रेरिदानि धयो न वा दत्त्वा बलिम् राजराज प्रद्युम्नाय महात्मने दक्षिणे कृत्य नत्वा प्राहेदम् हर्षपूरितः कुबेर उवाच नमस्तुभ्यम् भगवते पुरुषाय महात्मने अनादये सर्वविधे निर्गुणाय महात्मने प्रधानपुरुषेशाय प्रत्यग्धाम्ने नमो नमः स्वयं ज्योतिस्वरूपाय श्यामलाङ्गाय दे नमः नमस्ते वासुदेवाय नमः सङ्कर्षणाय ज प्रद्युम्ना यानिरुद्धाय सात्वदाम्बदये नमः मदनाय जमाराय कन्दर्पाय नमो नमः दर्पकाय जकामाय पञ्चबाणाय दे नमः अनङ्गाय नमस्तुभ्यं नमस्ते शम्बराय ये शम्बरारये हे मन्मद नमस्तुभ्यं नमस्ते मीनकेदन मनोभवाय देवाय नमस्ते कुसुमेशवे अनन्य अनन्यज नमस्ते स्तुर्यभर्त्रे नमो नमः नमस्ते पुष्पधनिषे मकरद्वजदे नमः स्मराय प्रभवे नित्यं जगद्विजयकारिणे नमो रुक्मवती भर्त्रे सुन्दरीपदये नमः इदं करिष्यामि करोमि भूम्मन् तवे दमा ब्रुवन् अहं सुखी दुःखयुधः सुहृज्जनो लोको ह्यथङ्कारविमोहितो किलः प्रधानकालाशय देख जय गुणैः कुर्वन् विकर्माणि जनो निबध्यते काचेर्भगं सैकतये वीवनं गुणे जसर्पं प्रदनोदि सोऽक्षिभिः कृतं मया हेलनमद्य मोहित च दशा प्रभो न सदा भवे त्वच्चरणार विन्दयोर्भक्तिम् परां याम् च विदुर्गरीयसीम् ज्ञानम् च वैराग्ययुधम् शिवास्पदम् देहि प्रशस्तम् निजसाधुसङ्गमम् श्रीनारद उवाजा प्रद्युम्नस्य शुभं स्तोत्रं प्रादरुद्धाय यः पठेद सङ्कटे तस्य सततं सहायस्या धरि स्वयं युक्त्युक्तवन्तं यक्षेशं प्रद्युम्नो भगवान् हरिः तथास्तो उक्त्वा ददौ राजन् पद्मरागशिरोमणिं मा वैष्टेत्यभयं दत्त्वा लीलाछत्रं सचामरं सिंहासनं मणिमयं प्रादा श्री यादवेश्वरः प्रदक्षिणीकृत्य राजराजो धनेश्वरः इदम् श्रुत्वा प्रद्युम्नेन महात्मना नकेपि केऽपि युयुधुस्तेन राजानश्च बलिं ददुः अथ कार्ष्णिर्मः बासुर्नादयन्दुन्दुभीन् बहून् समस्तवाहिनी युक्तप्राग्ज्योदिषपुरम् ययौ भौमासुरसुदोनीलो दर्शित साध्य तस्मै बलिं प्रादात्प्रद्युम्नाय महात्मने प्राग्ज्योतिषपुरद्वारिद्युविदो नाम वानरः पुरा प्रद्युम्न बाणेन ताडितो यो महाबलः समुद्धाय रुषाविष्टो दशनार्नखरैकरैः वितायवीरानश्वांश्च भ्रूभङ्गै प्रजगर्जः लाङ्गुलेन रथान् बद्ध्वा प्राक्षीपल्लवणाम्भसि गृहीत्वा स गजादोर्भ्याम् विचिक्षे पाम्बरे बलाद चतुम् ज्ञात्वा कविम् कार्ष्णि प्रति शार्ङ्गे शरम् दधे नीत्वा शरस्तम् सहसा भ्रमयित्वाम्बरे बलाद पूर्ववत्पादयामा स किष्किन्धायाम् महाकविम् पुनरागतवान् बाणपद्युम् न यदि श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे यक्षदशविषयो नाम पञ्चविंशोऽध्यायः ओम्